रोगशिरो परिस्थित नृत्यमानपदाबुजम् भक्तचिन्तितसिद्धिकालविचक्षणम् कमलेक्षणम् बुद्धिमुक्तिबलप्रदम् भुवि पद्मजाच्युत पूजितम् दक्षिणामुखमाशये मम सर्वसिद्धितमेश्वरम् वित्ततप्रियमर्चितम् कृताकृशतीर्वतवातैः मुक्तिका विभिराश्रितैः मुहुर्मुनिभिः दृढमानसैः मुक्तिदं निजपादपङ्कज सप्तमारसयोगिना दक्षिणामुगमाश्रये मम सर्वसिद्धितमेश्वरम् कृन्तदक्षमहाधिपम् रवीरभद्रगणेण वै यक्षराक्षसमर्थ्य किन्नर देवपन्नगवन्दितम् रत्नभुङ्गणनाथभृत दक्षिणा सर्वसिद्धिमीश्वरम् नक्तनाथ कलाधरं न गजापयोधर मण्डलम् लिप्तचिन्तनपङ्कुङ्कुम सकलं प्रभु दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् रक्तनीरजतुल्य पारपयोजसन्मणिनूपुरम् बन्धन य भेद पेषल पङ्कजाचिले मुखम् हेर्मशैलशरासनं दक्षिणामुखमाशये मम सर्वसिद्धिमीश्वरम् यः पटे च दिने दिने तव पञ्चरत्नमुमापतेः पुरातने मया कृतम् निखिलागमूलमहाबलम् तस्य पुत्रकलत्र मित्रधनानि संतु कृपा बलात् ते महेश्वर शङ्करा विश्वनायकशाश्वत mm. mm.